स्यामितादिविशो मासेत् रङ्गायत्र्यात् तस्य पर्णमक्षिद्यता तत्पर्णाभवत् तत्पर्णस्य पर्णत्वम् ब्रह्म वै पर्णः यत्पर्णशाखया वत्सा न पाकरोति ब्रह्मणैवैना नपाकरोति गायत्रो वै त्रिपदा गायत्री यत्पर्णशाखया गाः प्रार्पयति स्वेवैना देवतया प्रार्थयति यङ्कामयेता पशुस्यादिनि अपर्णान् तस्मै शुष्कामाहरेत् अपशुरेव भवति यङ्कामयेतपशुमान् स्यादिनि बहुपर्णान् तस्मै बहुशाखामाहरेत् पशुमन्तमेवैनम् करोति यत्प्राचेमाहरेत् देवलोकमभिजयेत् यदुदे चेम् मनुष्यलोकम् प्राचेमुदे चेमाहरते उभयो लोकयोरभिजित्ये विषत्वेत्याः विषमेवोज्यञ्जिल्यमाणे दधाते वायवस्थेत्याः वायुरु वा अन्तरिक्षस्याध्यक्षाः अन्तरिक्षदेवत्याः खलु वै पशवः वायवगेवैनान् परिददाति प्रवायेनामेतदा करोति यदाह वायवश्चेत्युपायवश्चेत्याह यजमानायैवनुपह्वयते देवोपः सहिता प्रार्पयत्वित्याहो ये श्रेष्ठतमालिकर्मण इत्याह यज्ञो हि श्रेष्ठतमम् कर्म तस्मादेवमाह <Sanye>, आप्यायध्वमध्येयादेव भागमित्याह वर्चाभ्यश्च वा येता पुरा मनुष्येभ्यश्चाप्यायुन्त देवेभ्य एवैना इन्द्रायाप्यायते ओर्जस्पते पयस्पतेरित्याह ऊर्जगम् हिपयः सम्भरन्ति प्रजावतेरनमेवायक्ष्मा इत्याह प्रजावाद्य मामस्तेन येश्वरमाभिजगम् सगित्या भुप्यै रुद्रस्य हेयपरिभोवणक्वित्याः रुद्रादेवेनास्त्रायते ध्रुवा अस्मिन् गोपतो स्याद्वक्वेरित्याह ध्रुवा एवास्मिन्वक्वे करोति हेमानस्य पशोन् गाहेत्याह पशूनाम् गोपीताय तस्मात् सायम् पशव उपसमावर्तन्ते अनधः साधयति गर्पानाम् धृत्याप्रपादाय तस्माद्गर्भा प्रजानामप्रपादुकाः उपरे वणितधादे उपरे वणिवर्गो लोकः स्ववर्गस्य लोकस्य समष्ट्यै देवस्यत्वादविदुःप्रथमयुक्तस्वपुरुषादत्वे प्रसो अश्विना बाहुभ्यामित्याह अश्विनो हि देवानामध्वर्यो आस्तास्ताभ्यामित्याह यज्ञे यो वा वोढधेः पर्वशो वेद नैनाश्रहिनस्ते प्रजापतिप्रवा वोढधेः पर्वशो वेद स्वयेनानहिनस्ति अश्वपर्श्वा बलिरच्छैति प्राजापत्यो वा अश्वश्रयो निय वोढधीनामधिंसायै यज्ञस्य घोषदधेत्याह यजमानके पर्यन्दधादे प्रत्यष्टकुण्डक्षप्रत्यष्टाराधन्याः रक्षसामुपहत्यै प्रेयमगाधिषणावरिजनक्षेत्याः विद्यावेधिषणा विद्यैवे नक्षैते मरुणा कृता स्वधयाविदक्षेत्याः मारवेजस्वधाकृता ता वहन्ति तत्प्राच्या एव दिशो भवति देवेभ्यो दिष्टमिह बरिहिरासदहित्याह परिहिषः समर्थ्यै कर्मणापराधाय देवानाम् परिषूतमसीत्याह यद्वा इदम् किम् च तद्देवानाम् परिभूतम् अथो यथा वश्यते प्रतिप्रोच्याहेतम् करिष्यामीति एवमेव तदर्थर्युक्देवेभ्यः प्रतिप्राभ्यपरिहृतादि आत्मनो हिगुंसायै यावदस्तम्बान् परिदिशेत् यत्तेषामध्यग्दृष्यात् अधितद्धिज्ञस्य लेशगेत् एकज्ञस्तम्बम् परिदिशेत् तघम् सर्वम् धायात् यज्ञस्यानिरेखाय वर्षवृद्धमधीत्याः वर्षवृद्धावायः एव परिहरित्याः देवेभ्येवेण करोति त्वांसाये <र्त> पर्वते राध्यासमित्याहध्येये थे आच्छेत्तादयमायुषमित्याह नास्यात्मनो गीयते य एवम् वेद देवकले शतवर्षम् विलोभेत्याह प्रजावेव प्रजानाः प्रजननाय सारतवर्षाविवेगमुहे मेत्याह आशिषमेवेतामाशास्ते पृथव्याः सम्भजः पाहेत्याह प्रतिष्ठित्ते अयुङ्गायुङ्गान्मुष्टेन्नते विषणत्वायप्रजाः ते सुसम्भृताः त्वा सम्भरामेत्याह ब्रह्मणेवैनत्संभरते अदित्येरा स्नादेत्याह इयम् वा अतिथिः अस्या करोति इन्द्राने सन्नः न इन्द्राणी वातानापुं समनह्यत साध्वादध्ये सन्नह्यते प्रजा वै मरेः प्रजानामपरापाय तस्मात् वसन्तता प्रजायन्ते पूषा च ग्रन्थिम् ग्रन्थात्वित्याह पुष्टिमेव विजमाने दधाते सदेवास्थादित्याहापुंसाये पश्चात्प्रांशमुखगोहते पश्चाद्वै प्राचेण कुंरेचो धीयते पश्चादेवास्मै प्राचेन कुंरेतो दधाति इन्द्रस्तत्वा बाहुभ्यामुप्यक्षयित्याह इन्द्रियमेव यजमाने दधाति बृहस्पतेर्मूर्धाः रामेत्याह ब्रह्म वै देवानाम् बृहस्पतिः ब्रह्मणैवैनद्धरति कुर्वन्तरे क्षमन्विहेत्यागत्यै देवङ्गममसेत्याह देवानेवैनद्गमयति अनधः सादयति गर्भाणाम् धृत्या प्रपादाय तस्माद्गर्भाः प्रजानामप्रपादुकाः उपरि वणिदधाति उपरि वणिसुवर्गो लोकः सुवर्गस्य लोकस्य समष्ट्ये पूर्वेऽद्यरध्वा बलिहः करोति यज्ञमेवारभ्य गृहे त्वोपवसति यज्ञादे प्रजापतिः यत्सान्नाय योगे भवतः यज्ञस्यैवदुःखे उपतथात्यप्रस्रपुंसाय शन्धध्वन्देव्याय कर्मणे देवयज्ञाय इत्याह देवयज्ञाय देवेनानिशुन्धति दे, मातरिष्वना घर्मोऽसीत्याह अन्तरिक्षम् वै मातरिष्वना घर्मः येषाम् लोकानाम् विधत्यै द्यौरसि पृथिव्यसीत्याह दिवश्चकेलापृथिव्या च सम्भृता हे सुखा तस्मादेवमाह विश्वधायाः शिवने मथाम् नेत्याः वृष्टिर्वै विश्वधायाः वृष्टिमेवावरुन्धे ऋगुमः समापादित्या वसूनाम् पवित्रमहेत्याः प्राणा वै वसवः एषाम् वा एतद्भागधेयम् करोति शतधारकम् सहस्रधारमित्याह प्राणेष्वेवायुर्दधाति तनुभत्वाय धृत्पदादिक्षाय अन्तर्भयम् भवति त्रिपद्वये प्राणः त्रिपदमेव प्राणम् मध्यतो यजमाने दधाति सौम्यः पर्णस्य यो नित्वाय साक्षात् पवित्रम् दर्भाः प्राक्सायमधिदधाति त्वप्राणापानयो लोकम् र्शग्निह्येतनः अन्नम् वै चन्द्रमाः अन्नम् प्राणाः उभयमेवो वै त्यजामित्त्वाय तस्मादेकम् सर्वतः पवदे उतस्तोको हुतो द्रक्षयित्याः प्रदक्षित्ये अविषवस्कन्धाय अभिरुतज्ञस्वाहा कृतज्ञस्कन्दते विना को अस्य विप्रषोभागधेयम् अग्रे विभतेन गायेत्याह नागमेव ज्ञम्भा कथेयेन समर्थयति स्वाहा पृथिवेभ्यामित्याह या वा पृथिव्यादेवेन प्रतिष्ठापयति पवित्रवत्यानयति अवान् चैवोषधेनाम् सकंस्रपुंसृज अथोषधेष्वेव पशुवन् धारयन्नास्ते धारयन्त एव कामसुक्षगित्याः तृतीयस्य त्रे इमे लोकाः इमानेव लोकाय यजमानो दिः अमोमि निरामगृह्णादि भद्रमेवासा कर्म विष्करोदे सा विश्वायुः सा विश्वव्यजा सा विश्वकर्मेत्याह इयम् वे विश्वायः अन्तरिक्षम् विश्वव्यजाः अथो विश्वकर्मा विमानेवेताभिर्लोकाय सा अथो यथा प्रधात्रे पुण्यमाशास्ते एवमेवना एतदुपस्तौति तस्मात्रा दारित्र्येयवन्दमानापस्तवन्तः पशोम् दु हन्ति भवशुद्धेन्द्रायदेवेभ्य हवेदिवाचते यथा देवतमेव प्रसौति देव्यस्य च मार्षस्य च व्यावृत्ते त्रियाः पृषत्याधिदेवाः अवाच यमोऽनन्वाभ्योत्तराः अपरिमितमेवावृन्धे न दार्पात्रेण दुह्यात् अग्निवर्देपात्रम् दार शब्दापात्रेण दुह्यात् यातया अथ खल्वाहः पुरोडाशमुखा न वे हवेगु हे एतैदः पुरोडाशकम् हविषोयामोऽस्तीति काममेव दारुपात्रेण दुःख्यात् शोद्धमेव न दुःख्यात् अथतोवारेण सम्भोतः यच्छोद्रः अहरेवदृत्याहो यक्षोद्रदोद्धेते अर्गपात्रमेवत्याोद्रः तृन्ते यदा कमपे पवित्रमत्यजे अहतद्धमिरिते सम्प्रत्यब्धमतावदेरित्याह अपाञ्चषधेनाञ्जलंसे तस्मादपाञ्चौषधेनाञ्चलसमुपजे वामः मन्त्राधनस्य साधयित्याह पुष्टिमेव यजमाने दधाति सोमे हत्वा लक्ष्मीन्द्राय तथेत्याह सामेवै न करोति यो वै सामम् भक्षयित्वा तम्भत्सरकम् सामन्न पिबते पुनर्भक्षाश्च सामपेशो भवते सोम खलु वै सान्नाय्यम् विद्वान् सान्नाय्यम् पिबते अपुनर्भक्षाश्च सामपेसो भवते न मन्मयेनापि यम् मृण्मयेनापि दध्यात् पितृदेवत्यग्रस्यात् हयस्पात्रेण वा दार्पात्रेण वापि दधाति तद्धि सदेवम् पुनर्भवति आपो वै रक्षोऽग्नेः रक्षसा वहति अधस्तमसि विष्णवेत्वेत्याह यज्ञो वे विष्णुः यज्ञायैवेन रदस्तम् करोति विष्णोहव्यम् रक्षस्वेत्याः गुप्त्यैः अनधः गर्भाणाम् सत्या प्रपादाय तस्मात् गर्भाः प्रजानाम प्रपादुकाः उपरेव निरधाते उपरेव सुवर्ग लोकः स्ववर्गस्य लोकस्य समष्ट्यै कर्मणे वाञ्जेवेभ्यश्चमित्याः शक्त्यै यज्ञस्य वेदन्त यमनप्रजा पजभोविजमानस्य सन्तायन्ते यज्ञस्य विच्छिद्यमनप्रजा पजभाविजमानस्य विच्छिद्यन्ते यज्ञस्य सन्दति यज्ञस्य त्वा सन्तत्ते नाम सन्तत्ये त्वा यज्ञस्यत्याहवनीया सन्प्रणोदे यजमानस्य प्रजाये पशुनाम् सन्तत्ते अपप्रणयते श्रद्धा वा आवह श्रद्धामेवारभ्य प्रणेयप्रजलदे अवप्रणयते यज्ञो वज्रमे अवभ्यातव्येभ्यः प्रभत्य प्रणीयप्रचलति अवस्पृणयति आपो वै रक्षोग्नेः रक्षसा अवभे अवस्पृणयति आपो वै देवानाम् प्रियम् धाम देवानामेव प्रियम् धाम प्रणीयप्रचरति अवस्पृणयति आपो वै सर्वा देवताः देवता एवारभ्य प्रणीयप्रचलति वेषायत्रे यत्याः वेषायश्चेतता दत्ते प्रत्यष्टकुण्क्षप्रत्यष्टाहराजयित्याः रक्षतावहत्यै धोरथेत्याह एकैधर्योग्निः अञ्जतमस्पृश्यादेयाय अध्वर्यम् च यजमानम् च प्रदहे वस्पृश्यात्यजे अध्वर्यश्च यजमानस्तजाप्रदाय धोर्मदय्यो स्मारन्धोर्मजिदन्धो वा व्ययम् वयन्धोर्वा मयित्याः दोवामपुरुषौ यम् चैवथोर्वदे यश्चैनन्धोर्वदे तावभोष्टार्पयदे त्वम् देवानामसस्थितमम् पकृतमम् द्विष्टतमम् अन्धितमम् देवभूतममित्याह यथाविजरेवेत अकृतमधिरविद्धानमित्याहासमाहात्मारित्याह सत्येः मित्रस्यत्वाचक्षुषः प्रेक्षयित्याहमित्रत्वाय माघे मानम् यत्था महात्वारिगुम् जिलमित्याहागुञ्जायै यद्वा सो नाधिवादे तत्सर्वम् वरुणदेवत्यम् उरुपादायेत्याह अवारुणमेवेन करोति देवस्यविदः प्रथवेत्याह प्रसो लोके अश्विनाः बाहुभ्यामित्याह अश्विनोऽपि देवानामध्वर्यो आस्ताः वोष्णास्ताभ्यामित्याह यत्यै अग्रे निम् निर्वभामेत्याह अग्नय एवैनान्यष्टन् निर्वपदे हृजुणायिमे लोकाः येषाम् लोकानामाप्त्ये तोष्णे चतुर्थम् अपरिमितमेवावरुन्धे स एवमेवानुभूर्वगम् हवेयम् षिनर्वपदे इदम् देवानामिदमनः सहेत्या हव्यावृत्ते स्वानारात्यायित्याहवृत्तेः तमसे वा एषोऽहम् अः परे न हि सुवरभिविक्षेयम् वैश्वानरञ्जोतिरित्याः सुवरेवाभिविभृति वैश्वानरञ्ज्योतिः द्यावापृथिवी अभिविभीत उतभेपेतान्गुहन्तान् दुर्यान्द्या वा पृथिव्यारित्याह विहापृथिव्यार्थृत्यैः पूर्वन्तरिक्षमम् गृहेत्याह गत्यैः अदित्या स्तोपस्थे अस्या एवेन तुस्थे सा जयति अग्ने हव्यगम् रक्षस्वेत्याैः इन्द्रोवृत्रमहन् सह अभ्यम्बिगता तासा यन्मेऽभि यज्ञम् सदेव मासे तदपोदक्राम तैतर्थाभवन् यद्यैरमोत्पनादे याभेव्यायज्ञियास्तभावः ताभिरेवैनामुत्पनादि त्वाभ्यामुत्पनादि विवाद्रियमानः प्रतिष्ठित्यै एवोवस्सवितोत्पुनातिवित्याह सपितर्प्रसोदेवैना उत्पुनादे अच्छिद्रेण पवित्रेणेत्याह असौ वा वित्यो छिद्रम् पवित्रम् एनैवैनावुत्पुनादे वसौ सौर्यस्तरश्मिभिरित्याह प्राणावाः प्राणावसवः प्राणारश्मयः प्राणेरेव प्राणान् सम्पृणक्ते सावित्र्यच्च समितृप्रसूतम् मे कर्मा सदिते समितृप्रसूतमेवास्य कर्मफलते रक्षोगाय त्रियातृश्रमध्यत्वाय आपो देवेरग्रेभो अग्रे लैत्याः रूपमेवासा मेधन्महिमानम् व्याजष्टे अर्ग्रिमै यज्ञन्नयताग्रे यज्ञपदिमित्याह अर्ग्र एव यज्ञन्नयन्ति अर्गे यज्ञपदिम् युष्मानिन्द्रोवणेदवृत्रतोर्ये <NDA> द्वयमिन्द्रोवणे द्वमृतौर्य इत्याहृत्रगनिष्यण्न्द्रापोप्रे आवो आवोहेन्द्रम् वपृदे सञ्ज्ञा मेनाधामेतत्सामानम् व्यादिष्टे प्रोक्षितास्थेत्याह तेनापः प्रोक्षिताः अग्नयरोम् प्रोक्षाण्यज्ञैमाभ्यामित्याहेवन् प्रोक्षते यः प्रवक्षते त्रया वृद्धेज्ञः असो रक्षदामलहत्यै सुन्धत्वम् देव्याय कर्मणे देवयज्ञाय इत्याह देवयज्ञाय एव निषन्धते तः प्रावक्षते त्रया वृद्धेज्ञः असो मेद्ध्यत्वाय अवधूतकुण्डक्षोऽवधूत आराजय इत्याह रक्षतामहत्यै अदित्यात्मकसेत्याह इयम् अस्या एवेन त्वशम् करोति प्रदित्वा प्रथिमेव त्रित्याः प्रतिष्ठित्यै पुरस्ताः त्वदेशेन द्वेवमुत्तरडोमोपस्तनादिमेत्वाय तस्मात् पुरस्ताः प्रत्यन्तः पशभोमे समुपतिष्ठन्ते तस्मात् प्रजामृगङ्ग्राहुकाः यज्ञादेवभ्य निलायता कृष्णारूपम् कृत्वा यत्कृष्णाजिने त्रुपंगु अभिरध्य यज्ञादेव तद्धज्ञम् प्रयुङ्क्ते अविशवस्कन्धाय अधिशमनमधिवानस्पत्यमित्याह अधिशमनमेवैन करोति प्रदुत्वादित्यास्मग्नेयत्वाय अग्नेस्मनो रहेत्याह अग्नेर्वा एषा तनोः निर्दोषधयः वाचो विसर्जनमित्याह यदाहि प्रजावोढीनामश्नन्ति अशपादम् विसदन्ते देववेदयेनागन्धामेत्याह देवलाभिदेवेण समर्थयति अतिदशिवानस्पत्य इत्याह रावाणमेवेण करोति स इदम् देवेऽभ्यो हव्यगंशेत्याशान्त्यैः हविष्कृतेःत्याह एव देवानागम् हविष्कृतः तार्पयति द्रष्पयति विषत्या हि देवाः विषमावदार्जमापदेत्याह भवत्यैवाकविषे प्रविष्टा चेत् हे तुयावन्द्वा यज्ञाविषानाम् उद्वदता उपाशिन्वन् हे पराभवन् तस्मात् स्वानाम् मध्ये वसायेत श्रद्धादुर्यायज्ञायुतानामुद्धरतामुपशृण्वन्ते हे परा भवन्ति उच्चैः समाहन्तवाह विजित्ये वृन्तगेशामिन्द्रियम् वेर्यम् श्रेष्ठगेषाम् भवते वरिषवर्धमधिप्रतिता परिषवृद्धम् भेत्कृत्याः रषवृद्धा वा घोषदयः परिषवर्धाविषेकासमध्ये यज्ञकौलक्षाकस्य न तान्यस्ना पशुभ्यो निरवादयन्तौषधेभ्यः पराभूतकं रक्षः पराभूताराजयित्याः रक्षसानुवहत्ये रक्षसाम्भागोऽसेत्याह उभरे रक्षाकुंसि निरवदेते अपौमस्पृशलमेध्यत्वाय वायुर्वा वीणक्त्याः पवित्रम् वै वायुः पुनः ते वैनाने अन्तरिक्षादिवभागे ते प्रस्कन्दन्ते एषोत्पाहाय एवता हिरण्यपाहि प्रतिगृह्णात्वित्याः प्रतिष्ठित्य अविशास्कन्धाय तिष्ठलीकर्तवाः क्रियावृद्धिज्ञः असोमेध्यत्वाय अवधूतकं रक्षोऽवधूतारादिगत्याः रक्षसामरहते अदित्यास्त्रवसेत्याः यम् वाजिः अस्या एवचम् करोति प्रदित्वा समीपे द्वित्याः प्रतिष्ठत्ये पुरस्ताः प्रदेतेनग्रीवमुत्तरलोमपस्त्रिमादिमे धत्वाय तस्मात् पुरस्ताः भर्तम् च पशोमे समुपतिष्ठन्ते तस्मात् प्रजामृगङ्ग्राहुकाः यज्ञो देवेभ्य अनिलायत कृष्णो लोकम् कृत्वा कृष्णादिने अविनशिमेष्टि यज्ञादेव तद्व्यज्ञम् पयुन्ते अविषमास्कन्दाय पृथिवीषहास्ताः वैषम्या मात्रमे कमःर्वैषागुंशम्या मात्रमे कमःर्प्रथित्वादित्यास्तद्वैत्वित्याह दावापथिव्यार्वेत्यै घृणाजपर्वत्या प्रथित्वा दिवस्कम् भणिर्वेत्वित्याः दावापथिव्यार्विधत्यै घृणाजपार्वते पृथित्वा पल्पतिर्वे त्रित्याः दावापथिव्यार्थत्यै देवस्यत्रासविदः प्रथम इत्याह प्रथोके अश्विनाः बाहुभ्यामित्याह अश्विनो हि देवानामध्वर्यो आस्ता ओष्णास्ताभ्यामित्याहयत्ये ती, अधिवभामीत्याह देवतमेवेनानधि भवति धान्यमतिरिहेवा इत्याह एतस्य वीर्येण यावदेका देवता कामयते यावदेका प्रथले न हि तदस्ति यत्तावदेव स्यात् यावज्जुहवति प्राणायत्वापाणायत्वेत्याह प्राणानेव यजमाने तथादि येभ्राह्मणप्रतिशिमा विजयथामित्याह आयुरेवस्मिन् तथादि अन्तरिक्षादिवैेतानि प्रस्कन्दन्ति यानि त्रिषदः देवोपस्सवितायन्यपानप्रतिगृह्णात्वित्याः प्रतिष्ठित्यै अविशस्कन्दाय अहम् अपन्दे पिकुंशाणो निकुरुदादित्याहमेध्यत्वाय धृतिरसिब्रह्म यच्छेत्या सत्यये अपाःग्नेऽिमादन्ति निष्क्रव्यादकुम्सेधादेत्याहे वाहत्यग्नौ कपालमुपदधाते निर्दग्धकुं रक्षो निर्दग्धातिगित्याः कर्षागस्येव निर्दहते भाग्यमत्युपदधाति अस्मिन्नेव लोके ज्योतिर्धत्ते अङ्गारमधिवर्तयति अन्तरिक्ष एव ज्योतिर्धत्ते आदित्यमेव अस्मिन् लोके ज्योतिर्धत्ते ज्योतिष्मन्तोऽस्माभिमे लोका भवन्ति य एवम् वेद ध्रुवति पृथिवीम् तृगुम्भेत्याह पृथिवीमेवेतेन दृगुंहति धत्तमस्य अन्तरिक्षम् त्रिगुम्भेत्याह अन्तरिक्षमेवेतेन त्रिगुंहति धर्ममृजिवम् <द्णम्त्य> तृबृहेत्याह दिवमेवेतेन दृगंहते धर्मासुदृशो दृबृंहेत्याह द्विषये वेतेन तृगृंहते इमानेवेदैर्लोकान् तृगम्भजेत्मा इमे लोकाः प्रजया पशुभिः एवम् वेद त्रेऽन्यग्रे कपालान्निपदशालि श्रेमे लोकाः वेदान्लोकानामात्ये कपालम्पदशादि एकम् बाह्ये कपालम् पुरुषस्य सम्भवति अथ द्वे अथ त्वीनि अथ चत्वारि अथाष्टौ तस्मादष्टा कपालम् पुरुषस्य शिरः यदेवम् कपालान्यपदधाति यज्ञावय प्रजापतिः यज्ञमेव प्रजापतिंसर्गस्करोति आत्मानमेव तत्सर्गस्करोति कर्मसर्गस्कृतमात्मानम् अवष्टम् लोकेऽनुपलैति यदष्टावपदधाति गायत्र्यादत्संहितम् यन्नवा प्लवृतादत् यद्दशा विराजाद यदेकादश द्रष्टुभाद यद्वादश जगत्याद छन्दः संहितानि सौपदथकपालानि इमान् लोकार्णन्दिधर्ते त्रिमहते अथाय प्राणान् प्रजान् पशून्यजमाने तथा ते प्रजातानस्माभितमहुलान् करोति साजलेवेतदे भृगोणामङ्गिरसान्तपसादप्यर्थमित्याह देवतानामेवेनानि तपसा दपदे तानि तदस् अग्रस्थ्यते यानि घर्मे कपालाहण्यपचन्मन्ति वेधकैरजष्पदयच्चानुमुञ्चते चतुष्पादः पशवः ऋतुष्वेवोपरिष्टाः प्रतिष्ठते देवस्य काशविदप्रशव इत्याह प्रसो गोक्ते अश्विनोहान् अश्विनौ हि देवानामध्वर्यो आस्ता ओष्णास्ताभ्यामित्याहयत्यये सम्पपामेत्याह यथा देवतमेवेनानि सम्पदे समापो अभ्यरग् समोढसयोधेनेत्याह आपो वा वोढधेर्जिन्वन्दे वोढधयपो जिन्वन्दे अन्या वा एतासामन्या जिन्वन्दे तस्मादेवमाह अघुम् रेमतेर्जगदेशर्मसुमतेर्मसुमतेश्रज ध्वमित्याः आपो वै रेव मधुमतेः आबवोढधेः पशोन् तानेवास्माय कथाधुम् सृज्या मधुमतः करोति अभ्यपरिप्रजाता सदमभ्यप्रत्यर्थमिति पर्याप्रावेते यथा सुमष्ट इवामन्विसृज्या आ बोढुधेर्महयन्ते तादृगेव तत् अनयज्ञै त्वादं योमेत्याह प्रजा एवैतेन दाशाय त्वाज्ञे योमाभ्यामित्याह व्यामत्यै मघिरोदेत्याह यज्ञो वैमघः तस्यैतच्छिरः यत्पुरोनासः तस्मादेवमाह घर्मोदिविश्वायुरित्याह विश्वमेवायुर्यमाने दधादे पुनःपथस्तो हृते यज्ञपतिप्रसदामित्याह यजमानमेव प्रजया पथि ग्रन्थेश्वेत्याह सर्वमेवेन पुंसनम् करोति तथा पानीयपरिमाष्टे मापुंसकेव तत्पचम् दधाते तस्मात् च मांसञ्छम् धर्मोपायशोषान्तः अर्धमासे अर्धमासे प्रवृश्यते यत्पुरोनाशः सकेयेश्वरोंसु चलहः पर्यज्ञि करोति पशुमेव न मकः शान्त्यप्रदायपर्यज्ञि करोति त्रिया वृद्ध्यज्ञः अथो रक्षसामपहत्यै अन्तरितकुम् रक्षोन्तरितरात रक्षसामन्तरिहत्यै प्रोडासम्बाधिस्वकुम् रक्षाकस्य निखाकम् करन् विना को नामग्ने रक्षोः स एव रक्षाकः सर्वाहन् देवस्तादिताश्रमयत्मित्याह समितप्रभूत एवैनग्निश्रवैले वरिषष्ठे अधिना गयित्याः रक्षसामवहत्यै अग्निस्ते तदमम् मातिधागित्याहारिदाहाय अग्ने हव्यगम् रक्षस्पैरत्याहुप्त्यैः अमिदहन्तश्रवयते दिवाचम् विसजते यज्ञमेव हवे न शफ व्याहृत्य प्रदमते पुरोरुचममिताः विसद्यीकरोति मस्तिष्को वै पुरोडासः कय्यन्नाभिवासयेत् आविर्मस्तिष्क स्यात् अभिवादयते तस्मात् गुहामस्तिष्कः तस्मनाभिवादयते तस्मान् माकुम्नातिषन्नम् वेदे नाभिवादयते तस्मािरक्षन्नम् अघलति भावुको भवति यगेवम् वेद वसोर्वैप्रतिभारोडासः वे सः युष्कमभिवास्यः पृथेव ईश्वरा यजमानस्य पशवः प्रमेतोः सम्ब्रह्मणा वृत्त्यस्वेत्याह प्राणा वै ब्रह्म प्राणाः पशवः प्राणेरेव भूम् सम्प्रणक्ते न प्रमायुका भवन्ति यजमानो वै पुरोडाशः प्रजापशवः पुरेशम् यदेवमभि वासयति यजमानमेव प्रजयावदभिः समर्थयति देवा वैहविर्भृत्वा ब्रुवन् कस्मिन्निदम् रक्ष्यामः सोऽह्ययि तनोः सन्निदद्धम् अहम् हस्तञ्जनयिष्यामि यस्मिन् रक्षध्यगिति ते देवा अग्नौ तनोः सन्निदध तस्मादाहोः अग्निः सर्वा देवता इति सोऽङ्कारे नापः अभ्यपादयत् अत के कतोजायत सद्वितीयमभ्यपादयत् ततोभ्यतोजायत सीयमभ्यपादयत् ततस्ततो यदभ्यो जायन्त तदा आत्म्यानामात्म्यत्वम् यदात्मभ्यो जायन्त तदा आत्म्यानामात्म्यत्वम् हे देवा आप्यमृजत आप्यामृजतसौर्याभ्युजते सूर्याभ्युजतः सौर्याभिणिमृक्ते सूर्याभिणिमृक्तः कुनशिने कुनके, कुनके श्यापददे श्यामदन्नग्रजदिषौ अरिवित्तो वीरहणि वीरहा ब्रह्मणि तद्ब्रह्मणन्नात्यच्चपदा अन्तर्वेदेनवरुध्ये उन्मुखेनाभिगृह्णादिशतत्त्वाय श्रगामाय बहिदेवाः देवस्यत्वात् विदप्रसभवगिरश्चमालत्ते पृथोत्ये अश्विना बाहुभ्यामित्याह अश्विनवानामध्वर्यो आस्ताः ओष्णाहस्ताः भ्यामित्याहयत्ये आदृज इन्द्रस्य बाहुविदक्षिण इत्याह इन्द्रियमेव यजमाने दधाति जा इत्याहमेवस्येतन्महिमानम् व्याजुष्टे वायुसु दिग् इत्याह तेजोवे ते वायुः तेज एवास्मिन् दधाति विधामासुरहासेन् सुहबिभेल् यज्ञेन मा देवाभिष्यन्ते सपशिवीमभ्यपमे सा मेऽध्याभवत् कोविदिन्द्रो वृक्रमहन् कस्वहिदम् पृथिवेव नव्यथावत् सा मेऽध्याभवत् पृथिविदेवैदिनेत्याह मेध्यामेवेनानन्दवैदिने करोति कोणध्यास्तेमोरम्बाहिगुञ्जलमित्याह बोड़ कोणधेनामहिगुम् सायेक्षगोस्थानमित्याह छन्दाकुम् शिवेगोस्थानः छन्दाकस्येवास्मै प्रजङ्गो स्थानम् करोतिद्यौरित्याहेद्योः वृष्टिमेवृन्धे प्रधानदेव समिदः परमस्यानाम् परावदेत्याह भूवामपुरुषौ त्यञ्चैवद्वेष्टे यश्चैनन्द्वेष्टे सा भोवद्वाजपनमस्यानाम् परावतिशलेन वा शैलेः दे दे दे दे तो वा भोगेत्याहारिवृत्ते हरर्वे नामासुराधेत् व्यापम् लप्तो अपहतोरणपृथिव्या इति पृथिव्या अपाहघ्नन् भागुव्यो वा अरोह अपह तोरणपृथिव्या इति यदाः भ्रागुर्वमेव पृथिव्या अपहन्ते ते मन्यन्ता दिवम् वा यमिदः परिश्यकेते स्तेवाणि दिवः पर्यवासन्त भादुर्यवास्तेबास्त्राणि देदाः भादुर्यमेव दिवः परिभाषते स्तम्बकिजुर्हरते पृथिव्या एव भ्रादुर्यमपहन्ते द्वितीयगम् हरते अन्तरिक्षा देवेण अपहन्ते तृतीयगम् हरते दिवगेवेन अपहन्ते तोष्टेण चतुर्थकम् हरते अपरिमिता देवेन अपहन्ते असुराणाम् बाह्यमग्राहेत् यावदाधीनः परापश्यति तावद्देवानाः ते देवाब्रुवन् अस्तेव नो स्यामपीति किन्नोलास्ति चेति यावत् स्वयम् परिगृह्णे चेति एव समस्तेऽपि दक्षिणतः पर्यगृह्णन् रुद्राश्चेति पश्चात् आदित्या स्वेत्युत्तरदः ते किना प्राञ्चोदयन् वृद्धे प्रत्यन्तः आदिते रदन्तः यस्यैवम् विलसौवेजम् परिगृह्णन्ते भवत्यात्मनाः पराः स्यभ्यादुर्व्या भवते देवः सिः सपयित्याः कृतो भोक्ते कर्म गृह्ण्वन्ति वेशर इत्याहम्भिकर्मे पृथिव्ये मेध्यम् च मेध्यम् च विलक्रामदाम् रागेणमुजेन मेध्यम् ्रमणाम् करोति मेध्यामेवैनाम् करोति प्राञ्च वेध्यपुंसावन्नयते आहवणीयस्य परिगृहेत्ये श्रवणे नाजवत्रस्य परिगृहेत्ये असोविशदत्वाय उद्धन्ते दे, यदेवास्यामेध्याम् अदवहन्ते उद्धन्ते तस्मादोडसयपला भवन्ति मूलम् छिनत्ये भातृव्यस्यैव मूलम् छिनत्ये मूलम् वा चतुष्ठद्रक्षागस्य नोप्युपते यद्धस्तेण छिन्न्यात् पुनखिले प्रजा स्युः स्वेण छिनत्ये तद्रावयेभ्यः पत्रेणैव यज्ञान्तक्षागस्य वहन्ते तान् चतुरम् कुलेऽन्वविन्दन् तस्माश्चतुरम् कुलम् खेयाः चतुरम् कुलम् खनदे चतुरम् कुले चोडुशय प्रतिष्ठन्ते आप्रतिष्ठायै खनते यजमानमेव प्रतिष्ठाम् गमयते दक्षिणतो वर्षेयसे करोति देवविजनस्यैव करोति प्रजा वै पशवः पुलेशम् करोति उत्तरम् परिग्राहम् परिगृह्णाति एतावदेवे पृथिवे यावदेवेदिः तस्यागेतावदेव भ्रातुर्यम् निर्भज्य आत्मन उत्तरम् परिग्राहम् परिगृह्णाति रमस्रमस्रदस्ते असेत्याहेतत् पर पर क्रोरेव एतत्करोति यद्वेदिम् करोति धाजस्पथा असीति यो यते शान्तिः उर्वे चा यमस्वे चासेत्याः उर्वेमेवे नाम्बस्वेति पुरान्नित्याध्यत्वायम् चन्द्रमधिपदाभिरित्याह्यामेध्यम् तदर्भात्या मेध्याङ्गजने कृत्वा चन्द्रमधिमेध्यम् रस्या मेलयति त्याहानुक्षात्ये प्रोक्षणे रासादया युष्मापरिहर्मसादया समञ्जस्वशस्य संवृद्धे पत्रेतुम् सन्नह्य आद्य न हेत्याहारे प्रोक्षणे रासादयते आपो मे रक्षोग्नेः रक्षाहते ह्यस्य मत्मन् साधयते यज्ञस्य सन्दत्ये उवाजहासुरोलेवनः एतावदेर्वामुष्णम् वाताभासन् यावदे प्रोक्षयेदि तस्मासाद्याः स्फ्यस्यन् यन्विष्यार्थम् ध्यायेत् सुजयवैनवर्गेदे अज्रोवेस्भ्यः यदन्पञ्चम् धारयेत् धर्युः क्षन्वेद पुरस्ताः त्रिजम् धारयते अज्रोवयेष्भ्यः वज्रेणैव यज्ञस्य दक्षिणतो रक्षालस्य वहन्ति अग्निभ्याम् प्रागश्च प्रतीतश्च स्फेनोतीतश्च स्फेन वा एकवज्रेणास्तेपात्मानम् धातुर्यवहत्या उत्करे चिप्रविष्ठति यथा बधाय पृष्ठन्त्येवम् हस्तावने निते आत्मानमेव भवेदे स्पंक्षालयजमे धाय अथो बामण एवभ्यादरु यस्यङ्गन्सिलप्ते युद्धापरिकल्पसादेः यज्ञस्य विचनत्वाय अथवा पुरोर्जुमेवैतान्तसादे उत्तरस्य कर्मणोनुक्षाद्य न पुरस्ताद्गुपसादयेत् यत् पुरस्ताद् प्रत्यगुपसादयेत् अन्यत्राहुयथादिध्यम् प्रतिपादयेत् प्रजावेपलेः अपराध्ययाद्बलिषाः प्रजानाम् प्रजननम् पश्चात्रामुपसादयति आहुतिपथेनेध्वम् प्रतिपादयति सम्प्रत्येव बलेशाः प्रजानाम् प्रजननमुति दक्षिणमिध्वम् उत्तरम् बहिः आत्मावानिध्वः प्रजाबर्हिः प्रजाख्या आत्मन उत्तरतराधेऽर्थे अथवा मेषमपनीय यथा देवतमेवैरप्रतिष्ठापयते अगर श्रयप्रजया बहुर्गममानः